मुद्गलपुराणं खण्डम् एय्ट् धूम्रवर्णचरितम् अध्यायं फोर्टी mm. वन् कौण्डिन्यब्रह्मसमागमम् श्रीगणेशाय नमः शौनक उवाच गणेशनाममाहात्म्यं वदमे करुणानिधे येकनामभवेनैव पुण्येन सूद दशचोद्धृताः सूत उवाच गणेशनाममाहात्म्यम् कथितुम् कोर्षदिप्रभो अपार्यं वेदवादेषु कथितम् वेदवादिभिः अत्रेतिहासकम् वक्ष्ये सर्वसिद्धिप्रदम् परम् श्रवणात् पठनाच्चापि नरेभ्यो नात्र संशयः जरतकारुरि जरत्कारुरिदिख्यादो ब्राह्मणो ब्रह्मवित्तमः अपारतपसायुक्तशापानुग्रहकारकः तमाय यौमहाभागपुत्रस्तस्य महात्मनः आस्ति कः पुण्यशीलश्च प्रणनाम कृताञ्जलिः सेवायामुत्सुकस्तत्रो वा सहर्षसमन्वितः योगीन्द्रं पितरं सोपि कदा जगादविप्रप आस्तिक उवाच जनमे जययज्ञोऽहं रक्षित्वा पन्नगोत्तमान् समायादो महाभाग महाभागवन्दनार्थं पदस्यते तत्र सर्पगणानग्नौ मृदांश्च भृशपीडितान् तान् दृष्ट्वात्राससंयुक्तो भवम् परमम् पावन संसारम् दुःखदं वीक्ष्य तम् नेच्छामि महामुने अधः सुशान्दिदम् मार्गम् वदयोगप्रदायकम् एवम् पुत्रवच श्रुत्वा हर्षयुक्तो महामुनिः जरत्कारुर्जगादेदं वचनं योगभाविदं जरत्कारुरुवाच ब्रह्मज्ञानं विना पुत्रशान्तिर्नैव प्रलभ्यते नानाब्रह्मसु संस्थैश्चान्न प्राणादिषु मानद शान्धिभ्यः शान्तिदं पूर्णं ब्रह्मवेदप्रकाशकं संज्ञं तं भजस्व विधि संयुधः श्रुत्वा विप्रस्तमास्तीको जगादतपसायुधः कथं गणेश्वरं तादश्रेष्ठं वेदा ब्रुवन्दि नामरूपधरो भूत्वा ब्रह्मणस्पदिवाचकः कथं बभूव देवेशो स्वरूपकम् जरत्कारुरुवाच समूहे गणधातुश्च समूहाब्रह्मरूपिणः भावाख्यास्तेशाम् स्वामी गणेश्वरः सम्प्रज्ञादमयो देहो सम्प्रज्ञादमयं शिरः गजरूपम् तयोर्योगे देहधारी गजाननः अज्ञानसंयुतान्यादौ भूतानि विविधानि तु तेभ्यो ज्ञानप्रदानार्थं देहधारी बभूवः स्वसं वेद्येन योगेन दर्शनं तस्य जायते योगिनां तेन विघ्नेशो निजलोकनिवासकृद सिद्धिश्वर्य सा भ्रांति सतत मदा बुद्धिभ्रांतिधरा प्रोक्ता पंच चिस्विणी तयस्वामी गणधी सखेल चित सिद्धिग मायाभ्याों तदापरात्त् अत्र ते कथयिष्यामि पुरातनं महाद्भुतम् इतिहासं गणेशस्य नाम माहात्म्यसंयुधम् त्वा मादुर्जठरे योगार्थं योगनिपुणं कौण्डिन्यं सङ्गतो भवं नगरे सोऽपि गाणपत्याग्रणीर्महान् चिन्तामणिं गणेशानमभजत् दुर्वया सदा माम् दृष्ट्वा हर्षसंयुक्तो जगादस्वागतं मुने जरत्कारो निषीदत्वं तापसोऽग्रमहामदे येव माभाष्यमां विप्रकृत्वातिथ्यं यथाविधि पप्रच्छ किं महाविप्र वदेच्छसि शुभप्रदम् कौण्डिन्यस्य वच श्रुत्वाकर्षितोऽहं तमभ्रुवं तादभ्रमणसंयुक्तो भ्रमामि पृथिवीतले नानाथपोयुतो नाथ न शान्तिमलभं कदा तवाश्रममदो यादो वदशान्तिं सुशान्तिद कौडिन्य उवाच गणेशं भज तदा शान्तिमवाप्स्यसि नान्यथा त्वं जरत्कारो श्रमयुक्तो भविष्यसि एवं तस्य वच श्रुत्वा पुनस्तमहमब्रुवं नामरूपधरं देवं कथं वदसि शान्दिदं तदो मामब्रवीचोऽपि दयायुक्तस्वभावतः शृणुपुरभवं चित्रमितिहासं वदाम्यहम् अहं योगार्थमत्यन्तमक्लिश्यं तपसायुधः नाविन्दं तं तदो देवं ब्रह्माणं सङ्गदोभवं तं प्रणम्यमहाभागं योगशान्तिप्रदायकम् अहं योगार्थमत्यन्तमक्लिश्यं तपसायुतः ब्रह्मोवाच गणेशं भज भावेन तदः शान्तिमवाप्स्यसि गच्छस्तावर सं ज्ञे भज चञ्चलं चित्तमाख्यादं स्थिरं यत्र बभूवः तेन संज्ञम् तत्क्षेत्रं नाम्ना मया कृतं पञ्चचित्तप्रकाशो मे तत्र चिन्तामणिप्रभुः स्थापितो भून्मया पूर्वं साक्षा चान्दिप्रदायकः सृष्ट्यादौ तपसा तत्र मया सम्राधितो भवद तस्य वरप्रभावेण योगिवन्द्यो भवं मुदा एवं तस्य वच श्रुत्वा पुनस्तमहमब्रूवं नामरूप धरोनाथशान्धिधकथमञ्जस ततो मामब्रवीद्ब्रह्माकर्षयुक्ते न चेदसा गणानां परिभावेन स्थितोऽयं नामधारकः देहो जगन्मयस्तस्य गजाख्यं ब्रह्ममस्तकम् तयोर्योगे स्वरूपस्थो बभूव भक्तकारणाद् स्वानन्दो नगरं यस्य सिद्धिर्बुद्धिप्रिये मदे लक्षलाभौ सुधौ प्रोक्तौ मूशको वाहनं तथा एवं नानाविधानीह ब्रह्माकाराणि तस्य वै सुहृदश्च ततः प्रोक्कृतो द्वेदेषु मायामोहयुतान्या दौ विश्वानि मुनिसत्तम ब्रह्माणि योगदानार्थं तेभ्यो देहधरो भवद स्वेच्छया देहधारी स स्वेच्छया मायया युधः स्वेच्छया योगरूपोऽयं विनायकस्तदस्मृदः नास्ति चर्मादिसंयुक्तो देहस्तस्य महात्मनः तद्वर्जितो वैविप्रेष योगदेहधरो भवद अत्रते ते कथयिष्यामि पुरादनं पुरातनं भृषुण्डिनो महर्षीणां महान् ॐ तत्सदि श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिरे कौण्डिन्यब्रह्म समागमो सममो ओम